विष्णुसुप्तम् श्रीगुरुभ्यो नमः हरिः ॐ सहना भवतु सह नौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधितमस्तु माविद्विषावहैः ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ विष्णोर्नुकं वीर्याणि प्रभोचं य पार्थिवानि रजागंसियो रजागंशि यो अस्कभायदुत्तरगम् सधस्तम्बिचक्रमाणस्त्रीधो नृगायो विष्णोर्राटमसि विष्णो विष्णमसि विष्णोहस्ते स्थो विष्णो स्यूरसि विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वां तदस्य प्रियमभिः पाथोऽस्यां नरो यत्र देवयवो गुरुक्रमस्य स हि बन्धुरित्था विष्णो ॐ पदे परमे मध्व उत्सह प्रतद्विष्णोस्तपते विर्याय मृगो न भीमा कुचिरो गिरिष्ठाः यस्यो ऋषु त्रिषु विक्रमणेषु अधिक्ष्यन्ति भुवनानि विश्वा परो मात्रया तनुवावृधान न ते महित्व मद्वश्चुवन्ति उभे ते विद्म रजसी पृथिव्या विष्टो देवत्वं परमस्य वित्थे विचक्रमे पृथिवीमेषाम् क्षेत्राय विष्णुर्मनुषे दशस्यन्ध्रुवासो अस्य क्रीडयो जनाचः रुक्षितिगं सुननीचकार तिर्देव पृथिवीमेष एतां विचक्रमेशतर्च संमहित्वा प्रविष्णोरस्तु तव सस्तबिर्यान् पेषगह्यस्य सविरस्य नाभाम् अतो ओ देवा अवन्तु नो यतो विचक्रमे पृथिव्या सप्तधामभिः इदं विष्णुं विचक्रमे त्रेधां पदम् समूढमस्यां पागंसुरे त्रिणीपदा विचक्रवे विष्णुर्गोपा अदाव आभ्य ततो धर्माणि धारयन् विष्णो कर्माणि पश्यतां यतो ओ व्रतानि पश्पशे इन्द्रस्य युजस्य खा तद्विष्णो ओ परमं पदं सदा पश्यन्ति सूरयः दिवि वा चक्षुरातमं प्रदि आसो विप्रनन्यो ॐ जाग्रीवां तस्मिन् दते विष्णोत्यपरमं पदं पर्या आप्त्या अनन्तराजाय सर्वतोपोतिरात्र उत्तमं महर्भवति सर्वस्याप्तै सर्वस्य जित्यै सर्वमेव तना आप्नोति सर्वं जयति ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ